मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं सिक्स्टीन् चरितमाहात्म्यवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच ततो बहौ गदे काले दैत्येन्द्राबलसंयुताः देवाञ्जेदुम् प्रसन्नद्धा बभूवुः क्रोधसंयुताः प्रह्लादम् मुख्यकम् कृत्वा ब्रह्मशापेन मोहितम् आययुक्ताम् प्रणेमुस्ते दिधिम् कश्यपसंयुताम् तानुवाच देवी दिधि क्रोधसमन्विता मा गच्छदमहादुष्टा धर्मम् तसन्त्यज्य दैत्यपाः चतुर्भुजनदेवेशास्तापिता स्वर्गभूमिषु पादालविवरेष्वत्र यूयं राज्यसमन्विताः प्रणम्य तामनादृत्यदैत्येशा लोभसंयुताः ययुर्देवजयार्थं दिधि कश्यपसंयुक्ता दैत्यानां सुदुरात्मनां पक्षं त्यक्त्वा गणेशानमभजद्भक्तिसंयुधा एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता अदिस्थं स्वपुत्रं च भजद्विनायकं परं दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकं योगभावनभक्त्या दमभजत्प्रेमसंयुता विनताद्यास्तथा दक्ष कस्य फेनोपदेशिताः शान्तियुक्ता गणेशा नमभजन्प्रेमसंयुताः दक्ष उवाच दैवीं तु प्रकृतिं त्यक्त्वा तथा सुरीं महामुने कथं गणेश्वरं भक्रिया भजन्ति वदमानवाः मुद्गल उवाच सकामिकं करोति चेन्धरकर्म यथाविधि असुरं तत्समाख्यातं देहसौख्यकरं यदः निष्कामिकम् करोति नरो दैवं प्रकीर्तितं विधियुक्तं कर्मदक्षमुकृदं तन्मदम् बुधैः स्वधर्मस्तैर्जनैः कर्म क्रियते विविधम् परं देहधर्मं समाज्ञाय योगरूपं च तत् तदेव देवप्रीत्यर्थं कर्मभक्तिमयं मदम् भक्ति भक्तिभावार्थमानन्दास्सस्त्री गोमुनिराकरोद एतत् एकधितं सर्वं विघ्नराजचरित्रकं सर्वसिद्धिप्रदं पूर्णं शान्तिदं भक्तिकारणम् एवं नानावताराश्च विघ्नराजस्य मानद तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते अयं विघ्नेश्वरो देवः समस्वानन्दगो भवेद सत्या सत्ये विनिर्माय प्रभुक्रीडति मायया पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः तस्यार्थं शृणुभावेन ब्रह्मबुद्धिप्रकाशकम् सम्प्रज्ञादमयं ब्रह्मा सम्प्रज्ञादगतं तथा भ्रमयुक्तमहाविघ्नसंयुक्तं नात्र संशयः भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितं ब्रह्मणि ब्रह्मभूतं चेन्नो भयं तत्र विद्यते विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते विघ्नहर्ता स्वयं साक्षात् ब्रह्मणां च निरन्तरं स्वयं विघ्नयुधो नैव विघ्नहीनो न विद्यते एवं ज्ञात्वा नरो ब्रह्म भूदो भवति विघ्नपम् इदं वैघ्नेश्वरं चित्रं चरिदं संशृणोधि यः द्वातस्य तस्य विघ्नेशप्रसन्नो जायते सदा प्रसन्ने विघ्नराजेन्द्रे किं किम्किम् वै दुर्लभं भवेद सर्वसिद्धियुधसौन्ते नरो ब्रह्मैव जायते नानेन सदृशं किञ्चित् पावनं कुत्र भुक्लि मुक्तिप्रदं दक्षचरित्रं संश्रुतं त्वया पञ्चाग्निसाधनादीनि तपांसि विविधानि यः कुर्यातेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेद तीर्थानि विविधान्येव साधयित्वा फलं लभेद् तेभ्योऽधिकं लभेत् पुण्यम् खण्डस्यास्य श्रवान्नरः यज्ञानां साङ्गजातानां फलं तस्मात् प्रजापदे अधिकं श्रवणादस्य लभेत् खण्डस्य इष्टापूर्तादिकं सर्वं यः नरोत्तमः तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः आरोग्येण नरो युक्तो भवेदस्य तु संश्रवादवन्ध्यादिदोषभावेन पीडितो यदि मानवः अस्य श्रवणमात्रेण पीडाहीनो भवेत् यस्य गेहे स्थितश्चायं खण्डो विघ्नशभक्तिदः कदा तस्य पिशाच्येभ्यश्चौरादिभ्यो भयं न हि नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा गृहेभ्यो राशिसंस्थेभ्यः पूदनादिभयं न च धर्मार्थकाममोक्षाणां दायकोऽयं प्रकीर्तितः ब्रह्मभूयपदसाक्षाश्रवणेन न संशयः बहुनात्र किमुक्तेन यत्र विघ्नपदि स्वयम् संस्थितस्तेन सामान्यं भविष्यदि किमप्यहो इधिते ते कथितं सर्वं विघ्नराजस्य चेष्टितं भजत्वं सर्वभावेन गणेशम् सुखमाप्स्यसि न श्राव्यम् दुर्जनायेदम् चरित्रम् सर्वसिद्धिदम् साधवे गाणपत्याय श्राव्यं यत्ते न मानद उवाच यवमुक्त्वा महायोगी मुद्गलो विररामः महा दक्षो हृष्टमनास्तम् तु प्रणनाम कृताञ्जलिः मया ते कथितं पूर्णं चरित्रं विघ्नपश्य यद् यथा मुद्गलवत्त्राश्च निश्रुतं तादृशं परं भवदां संगयोगेन पावितोऽहं न संशयः श्रोतुमिच्छसि किं भूयो वदशौनकथे हितम् विघ्नराजसमं <Sess> नैव यथा विप्रतथा परं चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाकात्म्यवर्णनं नाम षोडशोऽध्यायः श्रीगजाननार्पणमस्तु इति श्रीमुद्गलपुराणे सप्तमः कण्ठः समाप्तः